शशंसुर्निर्वृता सर्वे दृष्ट्वा कृष्णस्य विक्रमं। पाण्डवस्त्वब्रवीद्भ्रातृसत्कारेण महीपतिम् दमघोषात्मजम् वीरम् संस्कारयतमाचिरम् तथा च कृतवन्तस्ते भ्रातुर्वै शासनम् तदा चेदिनामाधिपत्ये च पुत्रमस्य महीपतेः अभ्यषिञ्चित्तदापार्थः सहतैर्वसुधाधिपैः ततः स कुरु सर्वसमृद्धिमान् यूनाम् प्रीतिकरो राजन् स बभौ विपुलौ जसः शान्तविघ्नः प्रभूत प्रभूतधनधान्यवान् अन्नवान् बहुभक्ष्यश्च केशवेन सुरक्षितः ददृशुस्तम् नृपतयो यज्ञस्य विधिमुत्तमम् उपेन्द्रबुद्ध्या विहितम् सह देवेन भारत ददृशुस्तोरणान्यत्र हेमतालमयानि च दीप्तभास्करतुल्यानि प्रदीप्तानीव तेजसा सयज्ञस्तोरणैस्तैश्च ग्रहैर्ज्यौरिव संवभौ शय्यासनविहारांश्च सुबहून् वित्तसम्भृतान् घटान् पात्रीः कटाहानि कलशानि समन्ततः न ते किञ्चिदसौ वर्णमपश्यंस्तत्र पार्थिवाः ओदनाम् विकाराणि स्वादूनि विविधानि च सुबहूनि ददुर्बीजा सततम राजप्रेश्या महाध्वरे